ॐ नमो भगवते वासुदेवाय अथ दृढधन्वोपाख्याने त्रयोविंशोऽध्यायः राजोवाच किं फलं दीपदानस्य मासे श्रीपुरुषोत्तमे तन्मे वदमुनिश्रेष्ठं कृपया दीनवत्सलं वाल्मीकिरुवाच ृणुस्व सा राजशार्दूल शृणुस्व राजशार्दूल कथां पापप्रणाशिनीं यां श्रुत्वा विलयं याति सौभाग्यनगरे राजा चित्रबाहुरिति श्रुतः सत्यसन्धो महाप्राज्ञश्चासीत् छोरतरस्परः सहिष्णुः सर्वधर्मज्ञः शीलरूपद्वयान्वितः सहिष्णुः सर्वधर्मज्ञः शीलरूपदयान्वितः ब्रह्मण्यो भगवद्भक्तः कथाश्रवणतत्परः स्वदारनिरतः शश्वत् पशुपुत्र समन्वितः चतुरङ्गबलोपेतः समृद्ध्या धनदोपमः तस्य भार्या चन्द्रकलां चतुष्षष्टिकलान्वितां पतिव्रता महाभागा तया सह महीपालो बुभुजे मेदिनीं युवा विना श्रीकृष्णदेवं स नैव जानाति दैवतम् एकस्मिन् दिवसे राजा चित्रबाहुर्महीपतिः दृष्ट्वा समागतं दूरादगस्त्यं मुनिपुङ्गवं प्रणम्य दण्डवद्भूमौ विधिना तमपूजयत् कल्पयित्वा सनं भक्त्या तस्थौ मुनिवराग्रतः विनयावनतो भूत्वा जगादमुनिसत्तमम् राजोवाच अद्य मे सफलं जन्म ह्यद्य मे सफलं दिनम् अद्य मे सफलं राज्यम् अद्य मे सफलं गृहम् यस्त्वं समागतो मेऽद्य गृहे श्रीकृष्णसेवकः मुक्तोऽहं पापसंघातात् यत्त्वयाहं निरीक्षितः तुभ्यं समर्पितं राज्यम् युतं वैष्णवोऽसि मुनिश्रेश्च नाश्च प्रमाणं तु व्यञ्जनं वान्नमुत्तमं न यच्छति दिने यस्तु वैष्णवाय द्विजन्मनि तद्दिनं विफलं तस्य कथितं वेदपारगैः विष्णुभक्ताश्च ये केचित् सर्वे पूज्या द्विजातयः तेषां सम्भावना कार्या वाङ्मनःकायकर्मभिः कथितं मम गर्गेण गौतमेन सुमन्तुना तावत्प्रभाचताराणां यावन्नोदयते रविः तावदन्ये द्विजन्मानो यावन्नायाति वैष्णवः चित्रबाहो महाभाग धन्यस्त्वं साम्प्रतं नृप इमा धन्याः प्रजाः सर्वं यस्त्वं रक्षसि तस्मिन् राष्ट्रेण वस्तव्यं यस्य राजा न वैष्णवः वरो वासो वनेशोऽन्ये न तु राष्ट्रे ह्यवैष्णवे चक्षुर्हीनो यथा देहा पतिहीना यथा प्रिया निरक्षरो यथा हस्ति द्वादशी दशमी विद्धा दर्वहीना यथा सन्ध्या तिलहीनं च तर्पणं वृत्त्यर्थं देवसेवा च तथा राष्ट्रमवैष्णवं सकेशा विधवा यदवत् व्रतं स्नानविवर्जितम् शूद्रश्च ब्राह्मणी गामी तथा सराजा स राजा प्रोच्यते सद्भिर्यः श्रीकृष्णपदाश्रयः तद्राष्ट्रं वर्धते नित्यं सुखी भवति तत्प्रजा दृष्टिर्मे सफला राजन् निरीक्षितः अद्य मे सफला वाणी ह्यच्युते इदं राज्यं त्वया राजन् प्रकर्तव्यं ममाज्ञयाम् प्रतिष्ठितो मया राज्ये गमिष्याम्यस्तु स्वस्ति इत्युक्त्वा गन्तु भक्त्या तम्षी सा पतिव्रतां सदा तेस्तु। सदा तेस्तु भक्त्या भजपतिं शुभिम् दृढा ते स्तु सदा भक्तिः श्रीगोपीजनवल्लवी इत्थमाशीर्ददानन्तं भूयः प्राह महीपतिः बद्धाञ्जलिपुटो भूत्वा विनयानतकन्धरः चित्रबाहुरुवाच विपुला मे कथं लक्ष्मी कथं राज्यमकण्टकं पतिव्रता कथं पत्नी किं सुकृतं मया एतन्मे ब्रूहि विप्रेन्द्र तवाहं शरणं गतः करामलकवत्सर्वं जानासि त्वं मुनीश्वर इत्थमावेदितो राज्ञा ह्यगस्तो मुनिपुङ्गवः समाहितमना भूत्वा जगाद नृपसत्तमम् उवाच मया विलोकितं सर्वं प्राक्तनं चरितं तव तत्सर्वं कथयाम्यद्य सेतिहासं पुरातनम् चमत्कार पुरे रम्ये मणिग्रीवाभिधानभृत् संजातः शूद्रजातीयो जीवहिंसापरायणः नास्तिको दुष्टचारित्रः परदारप्रदर्शकः कृतघ्नो दुर्विनीतश्च शिष्टाचारविवर्जितः आसीत्तस्य प्रिया भार्या रूपशीलतः सुन्दरी कर्मणा मनसा वाच पतिसेवापरायण पतिप्रता महाभागा धर्मनिष्ठात्मनस्विनी भावं न कुरुते दुष्टं तस्योपरि गृहीतं धनमुत्तमम् ततो ततोऽवशिष्टं यत्किञ्चित् गृहीतं ज्ञातिभिस्तदान्मना एवं तिरस्कृतः सर्वैर्गतवान् निर्जनं वनं हत्वा जीवाननेकांश्च सचकर्थात्मपोषणम् एवं वर्तयतस्तस्य पत्न्या सह महीपति एकदा धनुरुद्यम्य मणिग्रीवो वनं गतः बहुव्यालमृगाकीर्णं मृगमांसजिघृक्षया तस्मिन् निर्मनुजारण्ये तस्मिन् निर्मानुशीरण्ये मध्ये मार्गं महामुनिः उग्रदेव इति ख्यातो दिङ्मूढो विह्वलोऽभवत् तृशा त्यर्थं मध्यं दिनि गते रवौ तत्रैव पतितो राजन् मुमूर्सुरभवत्तदा तं दृष्ट्वातिदया जात दिग्भ्रष्टं दुःखितं द्विजम् उत्थायतं द्विजन्मानं गृहीत्वा स्वाश्रमं गतः दम्पतिभ्यां कृता सेवा दुःखितस्य द्विजन्मनः उग्रदेवो महायोगी मुहूर्तानन्तरं तदा अवाप्यचेतनां यत्र विस्मयं समजीगमत् तत्रस्थोऽहं कुतश्चात्र केनानीतो वनान्तरं मणिग्रीवो वद विप्रं रमणीयविदं सर अत्रास्ते शीतलं पद्मिनी पुष्पवासि तत्र स्नात्वा जले शीते कृत्वा पौर्वाहिकी क्रिया कुरु ब्रह्मन् फलाहारं सुशीतलं सुखेन कुरु विश्रामं मया संरक्षितोऽधुनात्तिष्ठत्वं प्रसादं कर्तुमर्हसि लब्धसंज्ञदा विप्र उग्रदेवो गतश्रमः मणिग्रीवचः श्रुत्वा समुत्तस्थौ तृशातु मणिग्रीवभुजालम्बी जगामीष्टश्चित्रम्य तत्क्षणं विप्रो वटच्छायामधिश्रितः स्नात्वा नित्यविधिं कृत्वा वासुदेवमपूजयत् देवान् पितृंश्च सन्तर्प्य पपौ नीरं सुशीतलम् उग्रदेवस्ततः शीघ्रं वटमूलमुपाश्रितः मणिग्रीवस्य पत्नीको न ममुनिसत्तमं विनयेनावददवाच आतिथ्यं कर्तुमुन्मनाः मणिग्रीव उवाच अस्मत्सन्तारणायाद्य मदाश्रममुपागतः ीबोमुदान्वितः अय सुन्दरि पक्वानि स्वादु यानि च तानि चूतफलानि तं शीघ्रमानयमाचिरम् अन्यत् कन्दादिकिञ्चित् तत्तदानय शुभाननिजनाथ श्रुत्वा फलान्यादाय सुन्दरी कन्दादिकं च विप्राग्रे स्थापयामाशतः मणिग्रीवः फलान्यङ्गे कुरु ब्रह्म ज्ञातस्य न भोक्तव्यं ब्राह्मणेन विजानत मणिग्रीव उवाच शूद्रोहं द्विजशार्दूल मणिग्रीवाभिधानतः स्वजनैर्जातिवर्गैश्च परित्यक्तः स्वबान्धवैः इत्थं शूद्रवचः श्रुत्वा फलाहारमचीकरत् उग्रदेवः प्रसन्नात्मा ततो नीरमपि पिबत् ततो विप्रं सुखासीनं निर्जने निर्जले उग्रदेव उवाच ब्राह्मणोऽहं महाभाग। गन्तुमुत्सहि अधुना ज्ञातमार्गेण सम्प्राप्तो दारुणी वने तत्र श्रान्तस्तृषाक्रान्त मुमूर्सुरभवंक्षणात् जीवितं मे त्वया दत्तं ब्रूहि किं ते अरण्यं केन दुःखेन दम्पतीभ्यां समाश्रितम् ेष्यामि मणिग्रीवदस्वी इत्युग्रदेववचनं ललितं निशम्य पत्न्या समक्षमनुनीयमुनीश्वरं तं दारिद्रसागरतिषुरसौ स्वकीयं वृत्तान्तमाहनिजकर्म विपाकमुग्रम् इति दृढधन्वोपाख्याने त्रयोवंशोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु